अथैकत्रिंशः सर्गः परमाणस्ततो गत्वा जनस्थानादकम्पनः प्रविश्य लङ्काम् वेगेन रावणम् वाक्यमब्रवीत् जनस्थानस्थिता राजम् राक्षसा बहवो खरश्च निहतः कथञ्चिदहमागतः एवमुक्तो दशग्रीवः क्रुद्धः अकम्पनमुवाचेदम् निर्दहन्निव तेजसा केन भीमम् जनस्थानम् हतम् मम परासुना कोहि हि सर्वेषु लोकेषु गतिम् नाधिगमिष्यति महिमे विप्रियम् कृत्वा शक्यं मघवता सुखं, प्राप्तुम् वैश्रवणेनापि नयमेन च विष्णुना कालस्य चाप्यहङ्कालो दहेयमपि पावकम् मृत्यम् मरणधर्मेण संयोजयितुमुत्सहे वातस्य तरसा वेगम् निहन्तुमपि चोत्सहे दहेयमपि सङ्क्रुद्धस्तेजसादित्यपावकौ तथा क्रुद्धम् दशग्रीवम् कृताञ्जलिरकम्पनः भयात् सन्दिग्धयावाचा रावणम् याचते भयम् दशग्रीवो तस्मै प्रददौ रक्षसाम्बरः सविश्रब्धोऽब्रवीद्वाक्यमसन्दिग्धमकम्पनः पुत्रो दशरथस्यास्ते सिंहसम्हननो युवा रामो नाम महास्कन्धो वृत्तायतमहाभुजः श्यामः पृथुयशा श्रीमानतुल्यबलविक्रमः हतस्तेन जनस्थाने खरश्च सह दूषणः अकम्पनवचः श्रुत्वा रावणो राक्षसाधिपः नागेन्द्र इव निश्वस्य इदम् वचनमब्रवीत् ससुरेन्द्रेण संयुक्तो रामः सर्वामरैः सह उपयातो जनस्थानं ब्रूहि कच्चिदकम्बना रावणस्य पुनर्वाक्यम् निशमयतदकम्बनः आचचक्षे बलन्तस्य विक्रमम् च महात्मनः रामो नाम महातेजा श्रेष्ठः सर्वधनुष्मता दिव्यास्त्रगुणसम्पन्नः परम् धर्मम् गतो युधि तस्यानुरूपो बलवान् रक्ताक्षोदुन्दुभिस्वनः कनीयाल्लक्ष्मणो भ्राताराकाशशि निभाननः स तेन सह संयुक्तः पावकेनानिलोयथा श्रीमान् राजवरस्तेन जनस्थानम् निपातितम् नैव देवामहात्मानो नात्र कार्या विचारणा शरामेण तूत्सृष्टा रुक्तपुङ्खाः सर्पाः पञ्चानना भूत्वा भक्षयन्ति स्म राक्षसान् येन येन च गच्छन्ति तेन तेन स्म पश्यन्ति राममेवाग्रतस्थितम् इत्थम् विनाशितम् तेन जनस्थानम् तवानघ अकम्पनवच श्रुत्वा रावणो वाक्यमब्रवीत् गमिष्यामि जनस्थानं रामं हन्तुम् स अथैव मुक्ते वचने प्रोवाचे शृणु राजन् यथा वृत्तम् रामस्य बलपौरुषम् असाध्यः रामो विक्रमेण महायशाः आपगायास्तु पूर्णाया वेगं परिहरेच्छरैः सताराग्रह नक्षत्रम् न पश्चाप्यवसादयेत् असौ रामस्तु सीदन्तीम् श्रीमानभ्युद्धरेन्महीम् भित्त्वा वेलाम् समुद्रस्य लोकानाप्लावयेद्विभुः समुद्रस्य वायुम् वा संहृत्य वा पुनर्लोकान् विक्रमेण महायशाः हा। शक्तः श्रेष्ठस्य पुरुषः स्रष्टुम् पुनरपि प्रजाः न शक्त्यो जेतुम् रणे त्वया वापि लोकेण स्वर्गः पापजनैरिव न तम् वध्यमहम् मन्ये सर्वैर्देवासुरैरपि अयम् तस्य वधोपायस्तन्मैकमनाशृणु भार्या तस्योत्तमा लोके सीता नाम सुमध्यमा श्यामासमविभक्ताङ्गी स्त्रीरत्नम् रत्नभूषिता नैव देवी न गन्धर्वीनाप्सरा न च पन्नगी तुल्या सीमन्ति तस्या मानुषी तु कुतो भवेत। तस्या पहर भार्याम् त्वम् तम् प्रमथ्य महावने सीतया रहितो रामो न चैव भविष्यति अरोचयत तद्वाक्यं रावणो राक्षसाधिपः चिन्तयित्वा महाबाहुरकम्पनमुवाचः बाढम् कल्यम् गमिष्यामि ह्येकः सारथिना सह आनेष्यामि वैदेही वैदेहीमिमाम् हृष्टो महापुरी तदेवमुक्त्वा प्रययौ खरयुक्तेन रावणः रथेनादित्यवर्णेन दिशः सर्वाः प्रकाशयन् स रथो राक्षसेन्द्रस्य नक्षत्रपथ गो महान् चञ्चूर्यमानः शुशुभे जलधे चन्द्रमा इव सदूरे चाश्रमम् गत्वा ताटकेयमुपागमत् मारीचेनार्चितो राजा भक्ष्य भोज्यैरमानुषैः तम् स्वयम् पूजयित्वा तु आसनेनोदकेन च अर्थोपहितीचो वाक्यमब्रवीत कच्चिसुकुशल राजजोकाना राक्षसाधि आशंकेनाजाने तूर्ण मुगत महातेजाच रावण तत पश्चादीदाक्यमब्रवीदवाक्यको विद आरक्षो मे हतस्तातरामेणाक्लिष्टकारिणा जनस्थानमवध्यम् तत्सर्वम् युधि निपातितम् तस्य मे कुरु तस्य भार्यापहरणे राक्षसेन्द्रवचः श्रुत्वा मारीचो वाक्यमब्रवीत् आख्याताकेन वासीत मित्ररूपेण शत्रुणा त्वया राक्षसशार्दूलको सीतामिहा न यस्वेति ब्रवीति ब्रवीहि रक्षो लोकस्य सर्वस्य कश्ृङ्गम् छेत्तुमिच्छति प्रोत्साहयति यश्च त्वाम् स च शत्रुरसंशयम् आशीविषमुखाद्दष्ट्रामुद्धर्तुम् चेच्छति त्वया प्रतिपादितः सुखसुप्तस्य ते राजन्प्रहृतम् केन मूर्धनी शुद्धवंशाभिजनाग्रहस्तते जो मदः संस्थिततोर्विषाणः उपेक्षितुम् रावणनेहयुक्तः स संयुगे राघवगन्धःस्ति असौ रणान्तस्थितिसन्धिवालो विदग्धरक्षो मृगः नृसिंहः सुप्तस्तया बोधयितुम् न चापापहारे भुजवेगपङ्केशरोर्मिमाले सुमहाहवौघे न राम पातालमुखेति घोरे प्रस्कन्दितुम् राक्षस राजयुक्तम् प्रसीद लङ्केश्वर राक्षसेन्द्र लङ्काम् प्रसन्नो भव त्वं गच्छ त्वम् स्वेषु दारेषु एवमुक्तो दश दशग्रीवो मारीचेन स रावणः न्यवर्तत पुरीम् लङ्काम् निवेश च गृहोत्तमम् इत्यार्षे आदिकाव्ये अरण्यकाण्डे एकत्रिंशः सर्गः